एकत्रिंशोऽध्यायः शौनक उवाच कोपराधो महेन्द्रस्य कः प्रमादश्च सूतज तपसा वालखिल्यानाम् सम्भूतो गरुडः कथम् कश्यपश्यद्विजातेश्च कथम् वैपक्षिरात्सुतः अधृष्यः सर्वभूतानामवध्यश्चाभवत्कथम् कथम् च कामचारीस कामवीर्यश्च खेचर एतदिच्छाम्यहम् श्रोतुम् पुराणे यदि पठ्यते सौतिरुवाच विषयोऽयम् पुराणस्य यन्माम् त्वम् परिपृच्छ्यसि शृणु मे वदतः कश्यपस्य प्रजापते हाय्यम ऋषयो देवा गर्वाच दु किल शक्रो नियुक्त कश्यपेन मुनयो वालखिल्या चे दक्रस् वीर्यसदृश्भ गिरी प्रभं सुद्यम यानयामासति दिव प्रभु अथा पश्यदृशी ह्रस्वांगुष्टोदर वर्ष्म पलाशवर्तिकामेकाम् वहतः संहतान् पथि प्रलीनान् स्वेष्विवाङ्गेषु निराहारांस्तपो धनान् क्लिश्यमानान् मन्दबलान् गोष्पदे सम्प्लुतोदके तान् सर्वान् विस्मयाविष्टो वीर्योन्मत्तः पुरन्दरः अवहस्याभ्यगाच्छीघ्रम् लङ्घयित्वावमन्य च तेथरोषसमाविष्टाः सुभृशम् जातमन्यवः आरेभिरे महत्कर्म तदा शक्रभयङ्करम् जुहुवुस्तेऽसुतपसो विधिवज्जातवेदसम् मन्त्रैरुच्चावचैर्विप्रायेण कामेन तच्छृणु कामवीर्यः कामगमो इन्द्राच्छदगुणः शौर्ये वीर्ये चैव मनोजवः तपसो नः फलेनाद्यदारुणः सम्भवत्विति तद्बुद्ध्वा भृशसन्तप्तो देवराजशतक्रतुः जगामशरणम् तत्र कश्यपम् संशितव्रतम् तच्छ्रुत्वा देवराजस्य कश्यपोऽथ प्रजापतिः वालखिल्यानुपागम्य कर्मसिद्धिमपृच्छत् एवमस्त्विति तम् चापि प्रत्योचः सत्यवादिनः तान् कश्यप उवाचेदम् सान्त्वपूर्णम् प्रजापतेः अयमिन्द्रस्त्रिभुवने नियोगाद्ब्रह्मणः कृतः इन्द्रार्थे च भवन्तोऽपि यत्नवन्तस्तपोधना न मिथ्या ब्रह्मणो वाक्यम् कर्तुमर्हथ सत्तमा भवताम् हि भवत्वेष पतत्रीणामिन्द्रोऽतिबलसत्त्ववान् प्रसादः क्रियतामस्य देवराजस्य याचतः एवमुक्ताः कश्यपेन वालखिल्यास्तपोधनाः प्रत्यूचुरभिसम्पूज्य मुनिः श्रेष्ठम् प्रजापतिम् वालखिल्या ऊचुः इन्द्रार्थोऽयम् समारम्भः सर्वेषाम् प्रजापते अपत्यार्थं समारम्भो भवतश्चायमीप्सितः तदिदम् सफलम् कर्मत्यैव प्रतिगृह्यताम् तथा चैवम् विधत्स्वात्र यथा श्रेयोऽनुपश्यसि सौतिरुवाच एतस्मिन्नेव काले तु देवी दाक्षायणी शुभा विनता नाम पुत्रकामा यशस्विनी तपस्तप्त्वा व्रतपरा स्नाता पुंसवनेषु चिः उपचक्रामभर्तारम् तामुवाचाथ कश्यपः आरम्भः सफलो देवि भविता यस्त्वयेसितः जनयिष्यसि पुत्रौ द्वौ वीरौ त्रिभुवनेश्वरौ तपसा वालखिल्यानाम् मम सङ्कल्पजौ तथा भविष्यतो महाभागौ पुत्रौ त्रैलोक्यपूजितौ उवाच चैनाम् भगवान् कश्यपः पुनरेव धार्यतामप्रमादेन गर्भोऽयम् सुमहोदय एतौ सर्वपतत्रीणामिन्द्रत्वम् कारयिष्यत लोकसम्भावितौ वीरौ कामरूपौ विहङ्गमौ शतक्रतुमथोवाच प्रीयमाणः प्रजापतिः त्वत्सहायौ महावीर्यौ भ्रातरौ ते भविष्यत नैताभ्याम् भविता दोषः सकाशात्ते पुरन्दर व्येतुते शक्रसन्तापस्त्वमेवेन्द्रो भविष्यसि न चाप्येवम् त्वया भूयक्षेप्तव्या ब्रह्मवादिनः न चावमान्या दर्पात्ते वाग्वज्राभृशकोपना एवमुक्तो जगामेन्द्रो निर्विशङ्कस्त्रिविष्टपम् विनता चाप् सिद्धा था बभूव मुदिता तथा जनयामसौण् गलाणस्त भास्कर पुस्स पतत्री गुडमींद्रेनाभ्यषिंचत तस्तत्कर्मसुम्छयता भृगुनंदन श्री महाभारते आदिपर्वि आस्तीकपर्वण सौपर्णेकशोध्याय है